Oh एते तेन भवन्ति यद्दशममह्यो वै प्रजवैव्यतामपथेन प्रतिपद्यते यस्थानुगुंहन्ति योग्रेति स यो वै दशमे हन्नविवाक्य उपहन्यते सहीलते तस्मै यगुपहताहतमेवान्वारजमस्तुते च योजते तस्माद्विवाक्यमुपहता खल्वाहरु यज्ञस्य वै समृद्धेन देवास्तु वर्गं नगमायन यज्ञस्य संव्यधेनासुरान्वराभावत् खलु वै यज्ञश्च समृद्धं तद्यमानस्तु यद्विद्धं तद्भागं यश्च स योगेन शिवाक्य उपहन्यदेशदेवादेशे जितनविन्दे दुरन्तः सदसा प्रिप्र नियुट्ष्यां तर्दियां वेश्ट्वानि जारिक्ष्टु वंधियं वेश्पतो राग्नी यद्वाश्यांकिंचाः चंदिकराम्द शुस्ते ने नग्यु शपराग्नी ते जुदे वरिंचवाचानु जुदिन तो यचितारस्ट भलनाः खाबलिक्यो ते यः पर्याः तुमर्हतिमणो वारिमायुं सद्यः पर्याः तुमर्हतिः परिभवितुमर् ब्रह्मवदन्ति मिमिदानिष्यथलस्यैमान्दो नास्ति चक्षेतसः प्रतिगरः ब्रह्मवादिना वदन्ति वादशाहस्य प्रथमे मान्प्राणानृत्रेणि मागिं चतुच्छेने त्रिचतुष्पथः पशूनि जिगिं पञ्चमेनेति पञ्चाहाम् पङ्क्तिमि जिगिगम् षष्ठेने त्रिषतो जिगिगम् सप्तमेने सप्तपदागं सक्पदेमिति किमष्टमेनेत्यष्टाक्षराङ्गाजत्रिमिति किन्नवमेनेत्रमृतग्स्तममिति किन्वसमेनेक्षरान्ेत्येकादशाक्षरान् त्रिष्टुभमिति किन्द्वादशेने द्विद्वादशाक्षरान् जगदेमित्येतावद्वा अस्ति जापदेतज्जापदेवास्ति तदेषाम् ेष वात्रो द्वादशाहो यत्रयोदश रात्रः स मान गृह्येतदहरि यद्वाजनि गश्चोदयनि गृयति रात्रो भवति त्रयति मे लोगा येषां लोकानामात्रेः प्राणो वै प्रथमोऽति रात्रोऽ नो द्वितीयपानस्त्रिनीजः प्राणावानो धाने ेरा सर्वमायुर्यन्ति विद्वायुं शस्त्रजोदशरात्रमासते राहुर्वाग्वायशादशाहस्तां विच्छिन्द्यन् मध्येतिरात्रं कुर्युर्वष्टाच्छन्दोमानां महापुरं कुर्वन्ति सन्दतामेव वाचमवरुन् सुदा गृहपते वाग्भवति पशवो वै छन्दो मा हन्महातम् यदुपरिष्टाच्छन्दो मानाम् महाव्रतम् कुर्वन्ति पुशुषुशैवान्माद्ये च तिष्ठन्ति आदित्या अकामयन्तो भयोर्वभयोरुद्मितजेतञ्चतुर्दशराक्रमपश्यन्तमाहवन्तै मागजन्द मा ततो वै अबुभयो राधवन् अस्मै ग्येष्टमष्मग् जिदेवं विद्वानुं षष्ट दुर्दश रात्रमासत उभयोरेवलो गजोररुद्धवन् चस्मै यत्पराचीनानि पृष्ठानि भवन्त्य ममेव दैर्वोगमभिजयन्ति यत् प्रतीचीनानि पृष्ठानि भवन्ति ममेव दैर्वोगमभिजयन्ति त्रयस्तु पुंसौ मध्यस्तोमौ भवतः साम्राज्यमेव गच्छन् राजो भवतो समानाहं भवन्त भवतः परिहेत्रे गजस्वल्गं लोकमे तन् देवान्वाजन्तानादित्याश्च पशवस्तान्वाजन्ते देवा अग्रुवनिजान्वशोऽनुपादेश्मदनिमेम् वाग्मण्जितेभ्यदेतञ्चतुर्दशरात्रं पृष्ठे स्ववर्गं लोकमारोहन्त्यहाभ्यामस्मिन् लोके दशोऽन् प्रत्यौहन् पृष्ठैरादित्य अमुष्मन् लोक आर्भवन्त्यहाभ्यामस्मिन् लोके दशभोजेमसुर्दश रात्रमासत उभयो रेव लोकयोगवन्त्यस्मिङ्गस्यामुष्मिङ्गश्च पृष्ठैरेवामुष्म्योकरद्भवन्ति लोके ज्यो दङ्ग ृष्ठानि स्तुर्विवन्ति वैवीर्यं पृष्ठान्यो चदेव वीर्यं मध्यतो देवद्रन्तराभ्याह यन्ति बृहदाभ्यामेव यन्दथो देवाष्ठन्त्ये देवैन्यस्याञ्चाभ्यामेव सुवर्गं भवं देवराञ्चोपादे सुवर्गं भोगमभ्यारोहं द्विगेवराजेतानि मिष्ठान्युभयं दिक् प्रत्य प्रत्यवरोढ्याष्ठित्या फयोगोलो तिष्ठन्ति चतुर्दशैतास्तासाञ्याक्षरा विदारणम् विराग् विरा दैवान्नाद्यमवरिभतेजाश्चतस्वश्चतस्रो दिशो विक्ष्मे व्रतिष्ठन्त्यै इन्द्रो वै सदृदेवताभिरासेत्सनं जावृतमगच्छत्स प्रजापतिमुपाधापत्तस्मादेतं पञ्चदश रात्रं प्रागच्छत्तमाहरत्तेनायज ततो वै सोरोण्याभिर्देवताभिर्जावृतमगच्छद्जय एवं विद्वागंसः पञ्चदशरात्रमासते जावृतमेव पाप्मनाभ्यार्येण गच्छन्ति गौराजयव्योप ज्योतिरन्तरिक्षं गौरसा वायुरेष्वेव लोके सुप्रतिष्ठन्त्य सत्रं वादे तद्यच्छन्दो मयि पशवच्छो मा गोजस्य पशुसप्रतिष्ठन्ति पञ्चदश रात्रो भवति पञ्चदशो मज्रो वज्रमे पभ्यातृजये जः प्रहरन्द्रितिभात्रा प्रतितो भवत इन्द्रियस्य परिगेत्यै ैशिमप्रतिष्ठिताज्रं प्रायच्छुता पाप्मानरात्रं विद्वायुंसः पञ्चदश रात्रमासवे भाव्यविजं गच्छन्दन्तष्टुतापाप्मानन्य पञ्चदशरात्रेणत्मन्दधतयता देवपशव्याः पञ्चदश वा अर्धमासरात्रजोऽधमासस्संवत्सर आप्यदय संवत्सरं वसवो प्रजायन्तस्मात्पसव्यायता यसवर्याः पञ्चदश वा अर्धमा संवत्सर संवत्सरस्वर्गो लोजस्तस्मात् सुवर्गो दुर्गौ राजरिति त्र्यहो भवति इदं वा वज्वन्तरिक्षं गौरसा वाजुधिमानेव लोगारब्जारोहन्ति यदन्यतः पृष्ठानि स्तुर्विज्ञान्मध्ये पृष्ठानि भवन्ति ध्यतो दृहते बृहद्रन्दराभ्यायन्ति ृदाभ्यामेव यं यथो अनज प्रतिष्ठं जेते सुवर्गं लोकिपरान् सो वा जेते सुवर्गं लोकमभ्यारोहन्ति पराचेनानि पृष्ठान्यभगन्ति प्रत्यङ् प्रत्यवरोभ्य अथो प्रतिष्ठित्या पञ्चदश रुन्धते याः पञ्च पञ्च दिशो धिक्ष्वेव रात्रान इन्द्रियस्य वीर्यस्य प्रजालीपशो माम् परिगृहेत्यै प्रजापदिनगामयतान्नादस्यापि विषजयतकम् सप्तदश रात्रमपश्यत्तमाहरते नारतो वेशोः भवद्येवं विद्वागुंसः सप्तदशरात्रमासते नादाये भवन्ति पञ्चाह भवति पञ्चवादितमः संवत्सर ऋतुष्वेन संवत्सरे त्रतिष्ठन् यथ पञ्चाः शरान्देष्पान्तो यज्ञो यज्ञमेवावरुन्धते वादे तद्यदच्छन्दोमय यच्छन्दोमा भवन्ति तेन सत्रं देवता एव पृष्ठैरवरुन्धते ृष्ठानि समच्छन्तो माजस्ते सप्तदश रात्रो भवति सप्तदशः प्रजापदि प्रजापदे रात्राणाद्यस्य परिगृहेत्यै सा विराड्विक्रम्यातिष्ठद्ब्रह्मणा देवेष्वन्नेना सुते देवागामयन्तोपजगं संवृञ्जे महिद्ब्रह्मजान्नञ्च नितयेतादिगुंशतिगुं रात्रिरपश्यन्ततोपैत उभयम् समवृञ्जत ब्रह्मजान्नञ्च ब्रह्मवर्चसिनादा अभवनिजदेवं विद्वागुं स चेताः भवन्ति द्वे पृष्ठानि सुविपथज्ञस्यान् मध्ये पृष्ठानि भवन्ति सविपधत्वा यौजो वै वीर्यं गम गम प्रत्यं एतेषु वल्गम् लोकमभ्यारोहन्ति केवराचीनानि पृष्ठान्युभजन्ति प्रत्यग्रहो भवति प्रत्यवरोढ्यासौ प्रतिष्ठित्य सस्यान्माद्यस्य सा वादित्योऽस्मिन् लोक आसीत् तं देवात्पृष्ठैः परिदृक्ष्य सुवर्गं लोकमगमगम्बरेरवस्तात् पर्यगृह्णन् दिवाकेत्येन सुवर्गे लोके प्रत्यस्थापयन् परेः परस्तात् पर्यगृह्णन् पृष्ठैर्वावारोहान् सवासावादित्योमुष्मिन् लोके परैर्भयतः परैर्हिगपृष्ठानि भवन्ति सुवर्गमेवतैर्लोके यजमानायन्ति त्रिपरैरवस्तात् परिगृह्णन्ति दिवाकीर्त्येन सुवर्गे लोके प्रतिष्ठन्ति परैः परस्तात् परिगृह्णन्ति पृष्ठैरु परोहन्ति यत्परे परस्तान्नस्यः परा हस्वर्गा लोकान्यष्पद्येरणैरवस्तात् ग्नस्तुः प्रजानिर्ग्रहयितो दिवाकेत्यं वरस्तामानो भवन्ति सुवर्गदेवै मां परिगृह्णन्ति यजमाना वैदिपाकेर्त्यगुं संवत्सदः परस्तामानोभितो दिवाकेत्यं परस्तामानो भवन्ति संवत्सदेवो भगतः प्रतितिष्ठन्ति पृष्ठं वैदिपाकेत्यं पार्श्वे मनस्तामानोभितो दिवाकेत्यं परस्तामानो भवन्ति तस्माद्भितः पृष्ठम् पार्श्वे भूयिष्ठाग्रहागृह्यन्ते भूयिष्ठगंसस्यते यज्ञस्यैव तन्मध्यत ग्रन्थिं रथन्तभिस्रगिंसाय सप्त गृह्यन्ते सप्त वैशेषण्याः प्राणाः प्राणानेव गजमानेषु दधति गत्वा पृष्ठानि भवन्त्यमु तैरुगमभ्यारोहन्ते प्रत्यवरोहे जगद्वामाजे ृष्ठानि भवन्ति तये लोकं प्रत्यवरोहन्त्यथ अस्मिन्नेव लोके प्रजतिष्ठन् जनोत्स प्रजापति तस्मादेतमे कवियुं सचिरात्रं प्रायच्छत्तमाह रक्तेनातिष्ठन् ये बहुराजिना प्रतिष्ठितास्ति त्रमासे न्वादसमासात्तवस्त्र यिमे लोकासावादित्यये कविगुंश चेतावन्तो वै देवलोकास्तेष्वेवजसा पूर्वं प्रति तिष्ठन्त्यसा वादित्योऽनव्यरोचत स प्रजापतिमुपाधाभत्तस्मादेतमेकविगुं शरिरात्रं कायक्षत्तमाहरत्ते नायज दत्ततो वै सो रोचत य देवं दे विद्वागुंस एकविगुंशतिरात्रमासते ैकमेकंशतिरात्र भवति सोदिचमेव गच्छन् प्रतिष्ठामेव प्रतिष्ठा ह्यैकविगुंशोदिरात्रा ब्रह्मवर्चसस्य निर्दैवन्निर्वीरम् कृत्वा विष्कन्धन्तस्मिन् हीयतायोस्मान्द्वेष्टि शरीर यज्ञशमलङ्कुसीदन्तस्मिन् सीतदुजोऽस्मान्द्वेष्टि यज्ञयज्ञस्य यत्ते जस्तेन सङ्ख्या ममामपि ब्राह्मणा ऋत्विजो यज्ञस्य तपसा ते स बाहमाहुवे सन्तये वृञ्जयसुतरम् सम्प्रजाम् पशूरे तमिळामाश्रिषा वृञ्जयसुमहा अग्नियेन्द्रेण समय न सरसत्या विष्णुना देवताभिः च्यानुपाख्याभ्यामुपदेहवेशवाहै यज्ञमादेवषटकृतम् स्तुतगम् शस्त्रम् प्रतिगरम् ग्रहमिडामाशिषालिञ्जेसुवः पत्नी सञ्जानुपदेहवेषवाहगम् समिष्टयजराददेतवाशोन्सुतम् पुलोडाशान् सव नान्योदयज्ञम् ेन्द्रानुपदेहुवे च वाहमग्निमुखान् सोमवतोले च विश्वेः भूतम् भव्यजम् भविष्यन्तषत्स्वाहा नमजत्सामयजुर्वषत्स्वाहा नमो गायत्रीतिष्ठुब्जयैव षत्स्वाहा नमः पृथिव्यम् दरिक्षङ्गौर्वषत्स्वाहा नमोऽग्निर्वाजुसूरुजोऽवशत्स्वाहा नमः प्राणोऽप्यानोपाणो वषत्स्वाहा नमोऽन्नङ्कषतुष्टर्वषत्स्वाहा नमः पिता पुत्रः पौत्रोपषत्स्वाहा नमो भोर्भवस्तु वर्भषत्स्वाहा नमः आमे गृहाभवन्त्वा प्रजामा यज्ञो विषतुीर्यावान् आपो देवेर्यज्ञिता मा विशन्तु सहस्रस्य मा भूमा प्रसीत् आमे गृहो भवत्वा पुरोरुक्स्तु सहस्रे मा विशताम् समीची आदित्या रुद्रावसवो मे सदस्यासहस्रस्य मा भूमा अग्निनाथपोन्मोहवद्वाचा ब्रह्ममणिना रूपाणीन्द्रेण देवानिवातेन सूर्येण चन्द्रमस नक्षत्राणि यमेन पितृन्द्राज्ञामनुष्याष्ठन नादेन जगरण सत्त्वान्याघ्रेण रङ्ग्यान् वसून् पदत्रिणो कृष्णाश्वान्गस्तेनाजान्नानि यमेन वनस्पते न दुम्बेनोर्जं गायत्रया छन्तांशत्र in the bottom स्वाहाधिमाधीकाय स्वाहा स्वाहाधीतं मनसे स्वाहा स्वाहा मनःप्रजापदये स्वाहाकाय स्वाहा कस्मै स्वाहागतमस्मै स्वाहादित्ये स्वाहादित्ये मह्ये स्वाहादित्ये सुमृणे काले स्वाहा सरस्व स्वाहा सरस्वत्ये बृहत्ये स्वाहा सरस्वत्ये नामगादे स्वाहा गोष्णे स्वाहा गोष्णे प्रपथ्याय महाभूष्णे नरन्ध्रजस्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे दुरीपादस्वाहा त्वष्ट्रे गुरुगोपाजस्वाहा विष्णवे स्वाहा विष्णवेन चुनुजपादस्वाहा विष्णवेन भूयपादस्वाहा सर्वस्मै स्वाहा दुर्भ्यस्वाहा हनोः भ्याविस्वाहोष्ठा ध्याविस्वाहाय स्वाहा नासिका भागुस्वाहाक्षेभ्याविस्वाहार्णा ध्यागस्वाहा वारयक्षवो वार्ये जःपक्ष्मभ्यस्वाहालयक्षवः पार्ये जःपक्ष्मभ्यस्वाहा स्वाहा देशेभ्यस्वाहा महाजस्वाहा ग्रेवाभ्यस्वाहा स्कन्धेभ्यस्वाहाकसाध्यस्वाहा मृष्टेभ्यस्वाहाजस्वाहा पाश्वाद् भागस्वाहा गुंसा भागस्वाहा दोढद्भागस्वाहा भावद्भ्यागस्वाहा जङ्घा भागस्वाहा श्रोणेभ्यागस्वाहोरुद्भ्यागस्वाहाष्ठेवद्भ्यागस्वाहा जङ्घा ध्याविस्वाहा भसज स्वाहाखण्डे जस्वाहा वा वधाना जस्वाहाण्डा स्वाहा शैपाजस्वाहा वेतसे स्वाहा प्रजाभ्य स्वाहा प्रजननाजस्वाहा बभ्यस्वाहा सफेभ्यस्वाहा लोमभ्यस्वाहा त्वचे स्वाहा लोहिताजस्वाहा मा पुंसाजस्वाहा स्मा लभ्य स्वाहा स्तभ्य स्वाहा भजभ्य स्वाहाङ्गेभ्यस्वाहात्मने सर्वस्मै स्वाहा अञ्च्येता जस्वाहायस्वाः क्षितिपदे स्वाहा क्षितिकुदे स्वाहा शितिगन्धा जस्वाहा श्रुतिपृष्ठा जस्वाहा शत्यपुंसा जस्वाहा पुष्पकर्मा जस्वाहा शित्योष्ठा जस्वाहा श्रुतिभ्रवे स्वाहा वाहा कीदृशा जस्वाः तादृशा जस्वाः सदृशा जस्वाः दृशदृशा जस्वाः कृष्णाजस्वाहा श्वेताजस्वाहा सुशङ्गाज स्वाहा सारङ्गाजस्वाहा धमाजस्वाहा गौराजस्वाहा भद्रज स्वाहा नगुलाजस्वाहाताजस्वाहा शोणाजस्वाहा श्यामाजस्वाहा श्यामाजस्वाहा पागलाजस्वाहा स्वरूपाजस्वाहानुरोपाजस्वाहा विरूपाजस्वाहा सुरूपाजस्वाहा प्रतिरोपायस्वाहा सबला ज स्वाहा कमलाजस्वाहा कृष्णजय स्वाहा कृष्णसक्षाजस्वाहा सर्वस्मे स्वाहा ओषधेब् जस्वाहा मूरब् भस्वाहा दूर जस्वाः काण्ड जस्वाहा वलसे जस्वाः पुष्पे जस्वाहा फले जस्वाहा गृहेत जाः गृहेत जवाः उपन्न जस्वाहा शयान जस्वाः सर्वस्मे स्वाहा जस्वाहा मूले जस्वाहातुले जस्वाहा सन्धो जस्वाहाखाः जस्वाहा पर्णस्वाहा पुष्पे जस्वाहा फले जस्वाहा गृहेदे जस्वाहा गृहे जस्वाहा जस्वाहा सिष्टा जस्वाहा सृष्टा जस्वाहा परिश्रेष्टा जस्वाहा सुष्टा जस्वाहो छ्रष्टा ऋक्जस्वा ऋक्ज स्वाहाजस्वाक्ज स्वाहोद्रिक्ताजस्वस्मै स्वाहा